श्रीमद्भागवत्महापुराणं दसंस्कन्ध भूमिरुवाच नमस्ते देवदेवे स शङ्खचक्रगदाधर भक्तेच्छोपात्ररूपाय परमात्मन्नमोऽस्तुते नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रे नमो भगवते तुभ्यं वासुदेवाय विष्णवे पुरुषायादिबीजाय पूर्णबोधाय ते नमः अजाय जनेत्रेऽस्य ब्रह्मणेऽनन्तशक्तये परावरात्मन्भूतात्मन् परमात्मर्नमोऽस्तुते तं वैसि शिक्षुरजोत्कटं प्रभोतमो निरोधायु भर्षु संवृतः स्थानाय सत्त्वं जगतो जगत्पते कालप्रधानं पुरशो भवान् परम् अहं पयो पयोजोतिरथानि लो न भो मात्राणि देवमन इन्द्रियाणि कर्ता महालित्यखिलं चराचरं तय्यद्वितीये भगवन्नयं रम तस्यात्मजोऽयं तव पादपङ्कजं भीतप्रपन्नार्तिहरोपसादितः तत्पालयैनं कुरुहित्पङ्कजं स्थिरस्य मुग्स्याखिलकल्मषापहं शेषु उवाच एते भुभ्यार्चितो वाग्भिर्भगवान् भक्तिनम्रया दत्त्वाभयं भौमगृहं प्राविश सकलर्थमत् तत्र राजन्यकन्यानां षट्सहस्राधिकायुतं भौमाश्रितानां विक्रम्य राजाराजभ्यो ददृशे हरिः तं प्रविष्टं श्रियो वीक्ष विमोहिताः मनसा ववृदेभीष्टम् पतिम् देवोपसादितम् भूयात्पतिरयम् मय्यम् धाता तदनुमोदताम् इति सर्वा पृथक् भावेन हृदयम् दधो ता प्राहीणो तद्वार्वतीम् सुमेष्टविरजोऽम्बराः नर्या नये महाकोशान् सा स्वान् ऐरावत्कुलेभांश्च चतुर्दन्तातरश्विनः पाण्डुराश्च चतुष्षष्ठीं प्रेषयामास केशवः गत्वा सुरेन्द्रभुवनम् दत्त्वादित्यै च कुण्डले पूजितस्त्रीदशी दीन्द्रेण सहेन्द्राण्या च सद्भ्रियः चोदितो भार्योत्पाट्य आरोप्य सेन्द्रान् निर्जित्यो निर्जित्योपानयत्पुरम् स्थापितसत्यभामाया गृहोद्यानोपशोभन नन्मपुरभ्रमरा स्वर्गान्तगन्धासौलम्पटाः जया च आनम्यकरीटकोटिभिः पादो स्पृसन्नच्युतं मनससाधनं सिद्धार्थये तेन विग्रहीयते महान्होऽसुराणां च तमोधिगार्ढ्यताम् अथो मुहूर्तये कस्मिन्नागारे सुताश्रिय यथोपये मे भगवान् तावद्रूपधरो व्ययः गृहे सुतासामनुपायतर्क्यक्रियं निरस्तं साम्यातिशये सुवस्थितः देमे रमाभिर्निजं कामसम्प्लुतो यथेतरोगाधकमेधिकाञ्चरन् इत्थं रमापतिमुवाप्य पतं यस्ता ब्रह्मादयोऽपि न विदोपदविन्ददीयां भेजोर्मुदां विरतं मेधितयानुरागहासावलोकनमं सङ्गमं जल्पलज्जता लज्जाम् प्रद्योदगमासनभरार्हणपादशोच ताम्बूलभेश्रवणवीजनगन्धमालये के केशप्रसारसेनतनं पनोपहार्यै दासी सतायपि विभोर्विदधूष्मदास्यं श्रीमद्भागवते महापुराणैः परञ्चां चैतायां दसंस्कन्दैरार्थे पार्यातरण नरकुवधूनाम् एको न षष्ठितमोऽध्यायः